संहितापाठम् अङ्गादङ्गाल्लों नो लों नो जातं पर्वणि पर्वणि यक्ष्मं सर्वस्मादात्मनस्तमिदं विवृहामि ते अङ्गादङ्गाल्लों नो लों नो जातं पर्वणि पर्वणि यक्ष्मं सर्वस्मादात्मनस्तमिदं विवृहामितये अङ्गादङ्गाल्लों नो लों नो पर्वणि पर्वणि पर यक्ष्मं सर्वस्मादात्मनस्तमिदं विवृहामितये